श्रीहरे नमः अत दशमोऽध्यायः सूतौ वाच स एवमनुभूयेदं नारायणविनिर्मितं वैभवं योगमायायास्त्वमेव शरणं ययौ यो, मार्गण्डेयौ वाच प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे यन्माययापि विभुता मोह्यन्ति ज्ञानकाशया सूतौ उवाच तमेवं निपृधात्मानं वृषेण दिविपर्यटन् रुद्राण्या भगवान् रुद्रो दतर्ष स्वगणैर्वृतः अतो मा तं ऋषिं गिरिशं समभाषत पश्येमं भगवन् विप्रं निपृधात्मेन्द्रियाशयं निपृधो दशौव्रातं वातापायेयतार्णवं कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् श्रीभगवानुवाच नैवेच्छत्यासिष क्वापि ब्रह्मर्षिर्मोक्षमप्युथ भक्तिं परां भगवते लब्धवान् पुरुषे व्यये अथापि भवान् एतेन साधुना अयं हि परमो लाभो नृणां साधुसमागमः सुतौ वाचा इत्युक्त्वा तमुपेयाय भगवान् ससतां गतिः ईशानस्सर्वविद्यानाम् ईश्वरस्सर्वदेहिनां तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः नवेदरुत्तवृद्धेर् आत्मानं विश्वमेव च भगवांस्तदभिज्ञाय गिरीशो योगमायया आविसत्तद्गुहाकाशं वायोश्चित्रमिवेश्वरः आत्मन्यपि शिवं प्राप्तं थित्पिङ्गजटाधरं त्रयक्षं दशभुजं प्रांशो मुद्यन्तमिव भास्करं व्याघ्रचर्माम्भरधरं शूलखड्वाङ्कचर्मभिः अक्षमालाढमरुकम् कपालासिद्धनुःसह बिभ्राणं सगसाभं विचक्षः कृतिविस्मितः किमिदं कुतयेवेति समाधेर्विरथो मुनिः नेत्रे उन्मील्य तदृषे सकणं सोमया कथं रुद्रं त्रिलोकैकगुरुं न नाम शिरसा तस्मै सपर्यां व्यदधात् गणाय सहोमया स्वागतासनपाद्यार्घ्य गन्धश्रधूपदीपकैः आगशात्मानुभावेन पूर्णकामस्य ते विभो करवाम किमीशान येनेदं निर्वृतं शिवाय शान्ताय सत्त्वाय भ्रमरुडाय च रजोजुषेप्य घोराय नमस्तुभ्यं तमोजुषें नमः शिवाय शान्ताय सत्त्वाय भ्रमरुडाय नमस्तुभ्यं तमोजुषे सूत एवं स्तुतः स भगवान् आदिदेव सतां गतिः परितुष्टप्रसन्नात्मा प्रकसंस्तमभाषता श्रीभगवानुवाच वरं वृष्णीश्वनः वरदेसावयं त्रयः अमोकं दर्शनं येषां मर्त्यो यत् विन्दते रथं ब्राह्मणा साधवः शान्ता निस्सङ्घाभूतवत्सलाः एकान्तभक्ता स लोकालोकपालास्तान् वन्दस्यर्चन्त्युपासते अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः न ते मय्यश्युते जे जनस्यापि तत्युष्मान् वयमीमहीं न मयानि तीर्थानि न देवाश्चेतनोज्झिताः ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः ब्राह्मणेभ्यो नमः ये समद्रूपं त्रयीमयं बिभ्रत्यात्मसमाधानं तपस्वाध्याय संयमैः महापातकिनोऽपि वः शुद्धेरन् अन्त्यजाश्चापि किमु सम्भाषणादिभिः इति चन्द्रललामस्य धर्मगुह्योपबृंहितं वचो मृतायनम् ऋषेर्नातृप्यत्कर्णयोऽपि पन् सचिरं मायया विष्णोर्भ्रामितकर्षितो वृशम् शिववाक्कमृधत्वस्तक्लेशपुञ्जस्तमब्रवीत् ऋषिरुवाच अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणां यन्नमन्तीषितव्यानि स्तुवन्ति जगदीश्वराः धर्मं ग्राहयितुम् प्राय प्रवक्तारश्च देहिनाम् आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च नैतावता भगवत स्वमायामयवृद्धिभिः न दुष्येतानुभावस्तैर्मायिनकुहकं यथा सृष्ट्वेदं मनसा विश्वम् आत्मना अनुप्रविश्य यः कर्तेव स्वप्नदृक्यधा तस्मै नमो भगवते त्रिगुणाय गुणात्मने केवलाय अद्वितीयाय गुरवे ब्रह्ममूर्तये कं वृणेऽनुपरं भूमन् वरं त्वद्वरदर्शनात् यद्दर्शनात् पूर्णकामः सत्यकामः पुमान् भवेत् वरमेकं वृणे पूर्णात् कामाभिवर्षणात् भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि यत्यर्चितो वाचा तस्च मुनिना शुक्तया गिरा तमाक भगवान् सर्वया चा बिनन्दितः। चाभिनन्दितः कामोमकर्षे सर्वोयं भक्तिमान्स्त्वमदोषजे आकल्पान्तात् यशः पुण्यमजरामरता तथा ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते सुतौ वाचां एवं वरान् समुनये धात्र्यक्ष ईश्वरः अनुभूतं पुरामुना सोप्यवाप्तमहायोगमहिमा भार्गवोत्तमः विचरत्यधुनापि अद्ध हरावेकान्तदां गतः अनुवर्णितमेतत् ते मार्कण्डेयस्य धीमतः अनुभूतं भगवतो मायावैभवम् अद्भुतं एतत् केचित् माया संश्रुतिमात्मनः अनाद्यावर्तितं नृणां गाता चित्कं प्रचक्षते य एवमेधत् भृगुवर्यवर्णितं रदाङ्गपाणि अनुभवभावितं संश्रावयेत्संशृणुयात्ताबुभौ तयोर्न कर्मा स य संश्रुतिर्भवेत् इति श्रीमद्भागवते मखापुराणे द्वादशस्कन्ते दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराज कि जय